किं हि शक्यं मया कर्तुं यद् वृद्धानां त्वया नृप पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् आत्मनिन्दात्मपूजा च परनिन्दापरस्तवः अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् यदस्तव्यमिं शश्वन्मोहात्संस्तौषि भक्तितः केशवन्तच्च ते कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि समावेशयसे सर्वं केवलकाम्यया अथ चैषानते बुद्धिः प्रकृतिम् याति भारत मयैव कथितम् पूर्वम् भूलिङ्गशकुनिर्यथा भूलिङ्गशकुनिर्नामपार्श्वे हिमवतः परे भीष्मतस्या सदावाच सदा वाच श्रूयन्तेऽर्थविगर्हिताः